अम्बति एवद् दशकम् प्रलम्बासुरवतम् रामसद क्वापि दिनेकामद भगवन् गतो भवान् विपिनम् सूनुबिरबी भी गोपानम् धेनुबिरबी भी संवृतोलसत्वेष सन्दशयन् बलाय स्वैरम् बृन्दावनश्रियम् विमला रैसक बांटी काण्टीरैसकबालैर्बाण्टीरकम् आगमो वटम् क्रीडन् तावतावकनिदनस्पृह यालुर्गोपमूर्तिरदयालो दैत्यप्रलम्ब नाम प्रलम्ब बाहुम् भवन्तमाबेते जानन् अव्यविजानन्निव निबद्ध सौहार्द वडनिकडे पडुपशोप व्याबत्तम् द्वन्द्वयुद्धमारब्ध गोपान् विभज्यतन्वन् सङ्गम् बलभत्रकम् भवत् कमपि त्वत् बलबीतम् दैत्यम् त्वद् बलगदमन्मन्यथा भगवन् कल्पित विजेतृवहने समरे परयूतगम् स्वदयितदरम् श्रीदामानमदत्ता पराजितो दासताम् प्रदयन् एवम् बहुशो विबोमन् वगत्सो वाह्यमानेषु राम विजित प्रलम्बो जहार तम् भीत्या त्वद्दूरम् गमयन्तम् तम् दृष्ट्वा हलिनी विहित गरिमपरे दैत्यस्वरूपमाघाद्यत्रूपात् स ही उच्चतया दैत्यतनोऽस्त्वन् मुखमालोक्य दूरतो राम विहतभयो दृटमुष्ट्याम् वृषदुष्टम् सबते पृष्टवानीनम् त्वा दानववीरम् प्राप्तम् बलमालिलिङ्गित प्रेम्णा तावन्मिलतोर्युवयो शिरसि कृता पुष्पवृष्टिरमरगणे आलम्बो भुवनानाम् प्रलाम्बम् निदनमेवमारशयन् कालम् विहाय सद्यो लोलम्ब रुचे हरे हरे क्लेशान् कृष्ण जय कृष्ण जय कृष्ण जय कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण जय